अथ एकचत्वारिंशम् दशकम् व्रजेश्वरशौरिवचो निशम्य समा व्रजन्न ध्वनिभीतचेताः निष्पिष्टनिःशेषतरुम् निरीक्ष्य कञ्चित् पदार्थम् शरणम् निशम्य गोपीवचनादुदन्तम् सर्वेऽपि गोपा भय विस्मयान्धाः घोरपिशाचदेहं घोरपिशाच देहम् देहुर्विदूरेऽथ कुठारकृतम् त्वत्पीत पूतस्तनतच्छरीरात् चलन्नुच्चतरो हि धूमः शङ्कामधादागरवः किमेष किञ्चन्दनो गौ गुलवोऽथ वेति मदङ्ग सङ्गस्य फलम् न दूरे क्षणेन तावद् भवतामपि स्यात् इत्युल्लपन् वल्लव तल्लजेभ्यस्त्वम् पूत नामातनुथाः सुगन्धिम् चित्रम् पुरैवा कथिचौरिणेदम् इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसेऽन्यमाङ्क्षीत् दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमाङ्गल्यशतो व्रजोऽयम् भवन्निवासादयि वासुदेव प्रमोद परितो विरेजे गृहेषु ते कोमलरूपहास मिथः कथा सङ्कुलिताः कमन्यः वृत्तेषु कृत्येषु भवन् निरीक्षा समागताः प्रत्यहमत्यनन्दन् अहो कुमारो मयि दत्त दृष्टि प्रतिवत्सकेन एह्ये मीपसार्य पावश कितूस्पर्शन कौतुक गोपवधू जन नीतस्व्र सरोजमा व्यालोल बुतु मलासी निपय स्तनमङ्कगम् त्वाम् विलोकयन्ती वदनम् हसन्ती दशाम् यशोदा माम् नभेजे भेजे स तादृशः दशकम्